अथ त्रयस्त्रिंशः सर्गः सीताम् तु मोहिताम् दृष्ट्वा सरमा नाम राक्षसी आससादाथ वै देहीम् प्रणयिनी सखीम् मोहिताम् राक्षसेन्द्रेण सीताम् परमदुःखिताम् आश्वासयामा सतता सर मामृदुभाषिणी सा हि तत्र कृता रक्षन्ती रावणादिष्टा सानुक्रोशा दृढव्रता सार्दर्शसखी सीताम् सरमानष्टचेतनाम् उपावृत्योत्थिताम् ध्वस्ताम् वडवामिवपां सुषु ताम् समाश्वासयामास सखी स्नेहेन सुव्रताम् समाश्वसि हि वै देहि मा भूत् ते मनसोऽव्यथा उक्ता यद्रावणेन त्वम् प्रत्युक्तश्च स्वयम् त्वया सखी स्नेहेन तद्भीरु मया सर्वम् प्रतिश्रुतम् शून्ये भयमुत्सृज्य रावणात् तव मे रावणाद्भयम् सम्भ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसेश्वरः तत्र मे विदितम् सर्वमभिनिष्क्रम्य न सौप्तिकं सौप्तिकम् कर्तुम् रामस्य विदितात्मनः मधश्च पुरुषव्याघ्रे तस्मिन्नैवोपपद्यते नत्वेवम् वानराहन्तुम् शक्याः पादपयोधिनः सुरादेवर्षभेणेव रामेण हि सुरक्षिताः दीर्घवृत्तभुजः श्रीमान् महोरस्कः प्रतापवान् धन्वी सन्नः लोपेतो धर्मात्मा भुविविश्रुतः विक्रान्तो रक्षिता नित्यमात्मनश्च परस्य च लक्ष्मणेन सह भ्रात्राकुलीनोनयशास्त्रवित् हन्ता परबलौघानामचिन्त्यबलपौरुषः न नहतो राघवः श्रीमान् सीते शत्रुनिबर्हणः अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना एवम् प्रयुक्ता शोकस्ते विगतः सर्वकल्याणम् त्वामुपस्थितम् ध्रुवम् त्वाम् भजते लक्ष्मीः प्रियम् ते भवति शृणु उत्तीर्य सागरम् रामः सह वानरसेनया सन्निविष्टः समुद्रस्य लक्ष्मणः सहितैः सागरान्तस्थैर्बलैः तिष्ठति रक्षितः अनेन प्रेषिता ये च राक्षसा लघुविक्रमाः राघवस्तीर्न इत्येवम् प्रवृत्तिस्तैरिहा हृता सताम् श्रुत्वा विशालाक्षिप्रवृत्तिम् राक्षसाधिपः एष मन्त्रयते सर्वैः सचिवैः सह रावणः इति ब्रुवाणा सरमा राक्षसी सीतया सह सर्वोद्योगेन सैन्यानाम् शब्दम् शुश्रावभैरवम् दंड निर्घातवादिश्रुवा भेरिया महास्वन उच सरीता मधुरभाषिणी सन्नाह जननीषा भैरवा भीरुेरिका भेरीनाद्चंभर शृणुत यद निस्वनम कलप्यंते मत मतंगा युज्यजिन दृश्यूढ़ा प्रा सहस्ता सहस्रशा तत्र तत्र च सन्नद्धाः सम्पतन्ति सहस्रशः आपूर्यन्ते राजमार्गाः सैन्यैरद्भुतदर्शनैः वेगवद्भिर्नदद्भिश्च तोयौघैरिवसागरः शस्त्राणाम् च प्रसन्नानाम् चर्मणाम् वर्मणाम् तथा तथा वाजिगजानाम् च राक्षसेन्द्रानुयायिनाम् सम्भ्रमो रक्षसामेष हर्षितानाम् तरस्विनाम् प्रभाम् विसृजताम् पश्य नाना वर्णसमुत्थिताम् वनम् निर्दहतो घर्मे यथा रूपम् विभावसोः घण्टानाम् शृणु निर्घोषम् रथानाम् शृणु निःस्वनम् हयानाम् भेषमाणानाम् शृणु तथा उद्यतायुध हस्तानाम् सम्भ्रमो रक्षसामेष तु मुलो लोमहर्षणम् श्रीस्त्वाम् भजति शोकघ्नी रक्षसाम् भयमागतम् कमलपत्राक्षो दैत्यानामिव वासवः अवजित्यजितक्रोधस्तमचिन्त्यपराक्रमः रावणम् समरेहर्त्वा भर्ता त्वाधिगमिष्यति विक्रमिष्यति यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः आगतस्य हि रामस्य क्षिप्रमङ्का गताम् सती अहम् रक्ष्यामि सिद्धार्थाम् त्वाम् शत्रु विनिपातिते अस्त्राण्यानन्दजानित्वम् वर्तयिष्यसि जानकी समागम्यपरिष्वक्ता तस्यो रसिमहोरसः अचिरान् मोक्ष्यते सीते देवि ते जघनम् धृतामेकाम् बहून्मासान् वेणीम् रामो महाबलः तस्य दृष्ट्वा मुखम् देवि पूर्णचन्द्रमिवोदितम् मोक्ष्य शेशोकजम्वारि निर्मोकमिव पन्नगी रावणम् समरेहत्वा न चिरा देव मैथिली त्वया समग्रः प्रियया सुखार्हो सुखम् सभाजिता त्वम् रामेण मोदिष्यसि महात्मना सुवर्षेण समायुक्ता यथा सस्येन मेदिनी गिरिवरमभितो विवर्तमानो हय इव मण्डलमाशुयः करोति तमिह शरणमभ्युपैः देवि दिवसकरम् प्रभवो ह्ययम् प्रजानाम् इत्यार्षे श्रीमद् रामायणे आदिकाव्ये युद्धकाण्डे त्रयस्त्रिंशः सर्गः